श्रीमद्भागवत् महापुराणम् एकादश स्कन्ध एकोविंशोऽध्यायः न तान् विदुष स्वार्थम् भ्राम्यतो भुजनाध्वनि कथं जञ्जात् पुनस्ते सूतान् समो विशतो बुध एवं व्यवसितं केचिन्न विज्ञाय कुबुद्धयः फलश्रुतिम् कुसुमितां न वेदज्ञावन्दतिः कामिन कृपणा लब्धा पुष्पे बुद्धयः अग्निमौग्धा धुमां धुमन्ताः स्वं लोकं नविन्दतिते विन्दति ते न ते मामङ्गजानन्ते स्थं य इदं यतः उक्तश्रयसुतृपो यथा निहारचक्षुषः ते मे मत ते मे मतमविज्ञाय परोक्षं विषयात्मकाः हिंसायां यदि रागशात् यज्ञ एव रचोदनाम् हिंसाविहाराशा लब्धैः पशुभिः स्वसुखैक्षया ययन्ते देवता यज्ञये पितृभूतपशङ्खलाः स्वप्नोपममुं लोकम् असन्तं श्रवणप्रियम् आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिकम् रज सत्त्वतमो निष्ठा रज उपासत इन्द्रमुख्यान् देवादीन्न तथैव माम् इष्टवेह देवता यज्ञैर्गद्वारस्यामहे दिवि तस्यान्तैभूयास्म महाशाला महाकुलाः एवं पुष्पितया वाचाम् व्याक्षिप्तमनसामृणाम् माणिनां जातिस्तब्धानां मद्वार्तापि न रोचते वेदा ब्रह्मात्मविषया त्रिकाण्डविषया इमे परोक्षवादाषयः परोक्षम् मम च प्रियम् शब्दब्रह्म सुदुर्बोधम् प्राणेन्द्रियमनोमयम् अनन्तपारम् गम्भीरम् दुर्विगाह्यं च मुध्रुवत् मयोपविंशितं भुम्नां ब्रह्मणानन्तशक्मिनां भूते सुघोषरूपेण विशेष विशेषूर्णैव लक्ष्यते अथार्णनाभिह्रिया दूर्णामुद्भुमते मुखात् आकाशाद्घोषमान् प्राडो मनसा स्पर्शरूपिणाम् छन्दो मयो मृतमयसहस्रपदवीं प्रभो ओङ्काराञ्जितस्पर्शा स्वरोस्मां स्वरोस्मान्त सभूषितां विचित्रभाषा विततां छन्दोभिश्चतुरुं तुरुत्तरैय अनन्तपारां विहतिं सुयत्याक्षीपते स्वयम् गायुतृष्णे कनिष्टुपं च बृहती पङ्क्तिरेव च तृष्टं जगत्यति छन्दो श्यति जगद्विराट् किं विधत्ते किमाचष्टे किमनुद्य विकल्पयेत् इत्यस्यायं लोके नान्यो मद्वेद कश्चन मां विधत्ते विधत्ते मां विकल्प्या पूषते त्वहम् एतावान् सर्ववेदार्थशब्द आसाय मां विधाम् मायामात्रमनुद्यान्ते प्रतिसीध्य प्रसीदति ते श्रीमद्भागवते महापुराणे पारहिंसां सहितायाम् एकादशस्कन्धे एकविंशोऽध्यायः